अथ पञ्चमोऽध्यायः गुरुसन्निधौ गुरोश्चापि नरेन्द्रस्य बन्धो विस्मयदायकः विश्वासं न करोति स्म नैकोक्तिसुगुरो तथापि स गुरुं द्रष्टुं बहुवारं पुनः दक्षिणेश्वरमायातो यतः स स्निग्धवान् गुरौ नानाचिन्ता नरेन्द्रस्य युक्तिवादे ह्यधिष्ठिता गुरोडेष्टा न भूयोऽपि नरेन्द्रे स्निह्यति नरेण द्वैतसिद्धान्ते विश्वासं नाकरोत् खलु एष पात्रमेतत्तु दैवतम् आवां द्वौ चापि देवौ स्त इत्येवं प्रोक्तवान्न स्वस्य मित्रं तताः सन् मुच्चैन् उवां दावपि चक्रतुः श्रुत्वेदं गुरुराजातो जग्जौ हेतुश्च नर्मणः अकरोष मृदुस्पर्शं नरेन्द्रस्य कलेवरे नरेन्द्र हि सञ्जातः कश्चिद्बोधो न वस्तदा दिव्यत्वं भुवि सर्वत्र प्रसितं स विचिन्तयत् भावेनैतेन स्वगृहं गतः भक्षणावसरे तेन खाद्येऽपि ब्रह्म वीक्षितं गच्छति स्म यदा मिथ्यां वाहनेषु उभयेषु च जनावल्यां तथा स्वस्मिन् ब्रह्म एव ददर्श चलन्नासि यदोद्याने लोहपिण्डे स्वशीर्षकम् अदाडयत्तदस्तिस्त्वं एतादृशदशा तस्य किञ्चित्कालम् अवर्तत साधारणस्थितिर्लब्धा नरेन्द्रेण ततः परम् अद्वैततत्त्वविषये बोधस्तस्यावभत्तदा सत्यं भवति सा स्रोक्ति इत्येवं स विभेद च गुरोरलौकिकी शक्ति नरेन्द्रेण परीक्षिता बहुवारं तथा सा तु सर्वदापि स्थिरीकृता तद्वदेव नरेन्द्रस्य गुरुर्प्रेम परीक्षितं श्रीरामकृष्णदेवेन यथा नीचै निरूपितं गुरुकोष्ठो नरेन्द्रेण प्रविष्टो भवति कदा अवधानं कृतं नैव गुरुणा तु सप्ताहानन्तरं भूयो नरेन्द्रो गुरुसन्निधिं यदायात यात पुनश्चापि घटितं पर्ववत्खलु एवमेव समापन्नं दिवारं तदनन्तरं पश्चादपि गुरुं द्रष्टुं नरेन्द्रत्पाशमागतः हे नरेन्दशब्द एकोऽपि प्रोक्तो न त्वां मया चिरम् आगच्छसि तथापि त्वं गुरुणैव मुदीरितम् अहं स्निहामि भवते भवदर्शनकाङ्खम् अत्राहम् अत आयामि श्रोतुं न भवतो वचः नरेणेवं यदोवाच सन्तोषभरितो गुरुः आश्लोश आश्लेषयन् स्वशिष्यं स नरेन्द्रं प्रोक्तवानपे, कुर्वन्नासमहं नूनं परीक्षां तव केवलम् उपेक्षा त्वां प्रतिव्यक्तां बाह्यनि सङ्गता मम त्वत्तुल्यदृढचित्तेन शक्त्या ममा स्पृहा गतः पूर्वमेव न काश्चिदध्यात्मिकी शक्तिः नरेन्द्राय गुरुर्दौ निर्दिष्टमेवं गुरुणा नरेन्द्र पृष्टवान् तदा सन्द्रष्टुमीश्वरं ताभिर्भवेयं किमहं क्षमः गुरुदेवेन तत्काली न शक्यमिति भासितम् ईश्वरप्रथमं साक्षात् अलौकिकप्रभावाप्तिं प्रतिकुर्यां विचारणां नो चेदहं विस्मयं विस्मरेयं विस्मरेयं दैवतं पूर्णतस्तथा प्रयुज्यैरन्मया तानि बलानि स्वार्थलब्धये इति प्रोक्तं नरेन्द्रेण श्रुत्वेदम् उदितो गुरुः एकाग्रोपासना स्वस्य शिष्यस्य तमतोषयत् व्यक्तित्वस्य नरेन्द्रस्य नैका आसन् विशिष्टता आध्यात्मिकमनोभावसंलब्धस्तेन जन्मनां तदीययुक्तिवादे तु उन्नतं चिन्तनं तस्य तथा श्रेष्ठं प्रवर्तनम् अभवद्दमनं तस्य सविशेषमनोगुणः जन्या स्वस्य शतूतेन समर्जितः नरेण विशालहृदय सत्यमाजितवान् सदा आचाराधार्मिकास्तेन बहवो नहि सम्मता आङ्ग्लशिक्षितात् तातात् स इदं तत्तु पाश्चात्यसंस्कृत्या ससर्गे संसर्गेण दृढीकृतं पाश्चात्य तत्त्वदशास्त्रं च साहित्यं च तथाविधं विज्ञानं वैद्यशास्त्रं च क्रियदंशेन सोपठत् आधारीकृत्य तद्ज्ञानम् गुरोः अवगन्तुं कृतस्मि तेन यत्न किन्तु फलं नहि उत्कण्ठते स्म तच्चित्तं यथार्थज्ञानलब्धये अनिर्णयस्य वलयान्निर्गन्तुं च भवान् च सः एतैद्वक्लव्यम् अध्येऽपि ध्यानं नित्यं च आचरत् कदाचिच्चेत् शान्त्यर्थं सङ्गीतं च स आलपतशक्ते युतमित्राणि तस्य शक्तानि नाभवन् तस्याध्यात्मिकसन्देहं दूरीकर्तुम् अशेषतः तथा ब्रह्मसमाजस्य नेतर्नेतारप्रमुखा अपि पर्याप्तमुत्तरं तस्य प्रश्नानां दातुमक्षमाहो ते रामकृष्ण एवासी तस्मै दातुं बलं तथा मानसस्य व्रणं तस्य समाधातुं क्षमोऽभवत् साक्षात्कारो ब्रह्मणस्तु संलब्ध गुरुणा स्वयं तत् शक्त्या मनः शान्तिं ददावपि समाधिं तं शिक्षेतुं नरेन् गुरुमया चत् अस्मत्प्रार्थनमात्मार्थम् ईश्वरशृणुयात् खलु संविक्षसे यथा त्वं मां यथा त्वं भाससे च मां तथैवाचरितुं सत्यं देवेन सहितं त्वया श्रोतुं तद्वचनं स्वरसं तस्यानुभवितं यथा तथा या शक्यं भवतीति नरेन्द्रं गुरुरभ्रवी विश्वासो देवरूपे सु नाशिते किन्तु मन्यसे आत्यन्तिकं परमार्थं लोकसञ्चालकं यदि त्वामहं न हि जानामि हे देव कृपया तव रूपं वास्तविकं मां तु दर्शयेत्यर्थय व्याकुलता भरितास्ति तदीया प्रार्थना यदि शृणीयान् निश्चयेनैव दैवतं तव याचनम् श्रीरामकृष्ण इत्येवं नरेन्द्रम् अवदत् तदा समाधानं बलं चापि नरेन्द्रो लब्धवान् दृढम् अनुसृत्य गुरोर्वाक्यं ध्यानमारब्धवानपि नरेन्द्रो देवबोधोऽपि तेन नष्ट कदाचन अन्तरे तस्य सञ्जातं क्रमेण परिवर्तनम् अदिश्यपद्धतिद्वारा गुरुरेतद् साधयत् नरेन्द्रो जितवान् बि ए परीक्षां तदनन्तरं समारेफे नियमस्य पठनं पितरीक्षया एतन्मध्ये समापन्नं वृत्तं किञ्चन दुःखदमं दम अकस्माज्जनकस्तस्य पञ्चत्वं जातवानहो कुटुम्बं तस्य दारिद्र्ये पतितं तेन हेतुनां नरेन्द्रोपुरुषस्य ज्येष्ठकुटुम्बाङ्गो भवत्तदा सप्ताष्टजनसंयुक्तं कुटुम्बं पालते कथम् एतेन कष्टप्रश्नेन नरेन्द्रो व्याकुलीकृतः अन्यस्य कर्म चर्म किमपि पर्यटन् स इतस्ततः क्षुधार्थो नग्नपादशूलवस्त्रधरोऽपि च याति स्म नित्यं नियमपाठशालां नरें तदा कदाचन्सृहृद्भिः सखादनाय निमन्त्रितः स्वीकुर्यान्न स तद्गेहे यदा स्वस्य प्रिया जना निराहारा भवन्ति ते चिन्ता तं समपीडयत् कृते कठिनयत्नेऽपि कर्मणैव स लब्धवान् दुराचारेण तन् तल्लुब्धुं कदापि न वमांस एतैः सर्वै नरेन्द्रस्य युवचित्तं प्रकम्पितम् ईश्वरे तस्य विश्वासो नष्टो भूरित्यभासत स्वस्य मानिसिकावस्थां कदापि सन्नागोपयत् नास्ति कशभूं दभूवेति तस्य मित्राण्य चिन्तयन् एषा वक्रीकृता वार्ता गुरुकर्णा उपागता विश्व स्यात् किं गुरुस्तस्मिन्नित्येवं शङ्कितो नरेन् इदं प्रतिगुरुं किन्तु कस्यो यदावदत् हे मूढस्तम्भयत्वं तु क्रुद्धसङ्गुरुरादिशत् नैव तत्सत्यमित्येवं माता मां प्रागबोधयत् यदीपमन्यया रीत्या मां पुनश्चापि भासते तदीयवचनं नैव पुनः श्रीरामकृष्ण इत्येवं तं शिष्यं प्रोक्तवानपि आश्वि अविश्वासो नरेन्द्रस्य हृदयस्यान्तरस्तरे ईश्वरं पतिनेवाभूत् इत्यस्मिन् संशयो न हि अत्रान्तरे भवत् काचित् घटना विस्मयावहा अटिस्म नरेन् विथ्यां कर्मलब्धैः कदाचित् सम्पूर्णदिवसं तस्य न भक्ष्यं न च विश्रमः गृहालिन्दे स कस्मिंश्चेत् सायं श्रान्त उपाविशत् मोहितायाम् अवस्थायां तदा स निरतोऽभवत् विचित्रदर्शनं किञ्चित् क्षणमात्रेण सो लभे तस्यात्मन परिधा परिधानं दिव्यशक्त्या कयापि च दूरीक्रियते एकैकम् इत्येवं सव्यभावयत् कथं वा भौतिकं दुःखं दिव्यनीति तथा समं वर्तेत प्रश्नये सतूषयं परिहितोऽभवत् तस्य शङ्कागता सर्वा अन्तर्दर्शनहेतुना नवीनचेतना काचिन्नरेन्द्रेण समर्जिता तेन नैवानुभूतश्च देहक्लेशो मनागपि शान्तश्च बलवान् भूत्वा प्रभाते स गृहं गता एकविंशतिवर्षीय तस्मिन् काले नरेण भूविवाहविषयं तस्य बान्धवापर्यचिन्तयन् सम्मतं न न नरेन्द्रेण येन संन्यासजीवनम् वाञ्छितं यस्य शक्त्या स समाकृष्टो भवद्भृशं पुनश्च मेलनं तस्य सञ्जातं गुरुणा सह विज्ञाता गुरुणा नूनं नरेन्द्रस्य मनोगतिः मातुर्निर्योगकार्यार्थे तव जन्मा भवद्भुवि सन्न्यासी त्वं भवेश्चेति संशयं विना यावज्जीवाम्यहं तावत् त्वं लोके वस्मृतमत्कृते श्रीरामकृष्णेत्युक्प्रारोदनं कृतवानपि ततः परं नरिन् लेभे कर्म किञ्चिन्न शाश्वतं गृहपालनमेतेन किञ्चिदंशेन साधितं मद्दारिद्यमपाकर्तुं याच तां मातरं भवान् नरेन्द्र प्रार्थयामास गुरुदेवं समाकुलः त्वमेव कुरु तच्चेति नरेन्द्रं गुरुरब्रवी गुरुपदे समादृत्य नरेन्द्रो मन्दिरं गतः कश्चिदाध्यात्मिकोन्माद उद्भूतस्तस्य उत मानसे उत्प्लवन्ति स्म तच्चित्तं मातृदर्शनवाञ्छया प्रविष्टे मन्दिरे तस्य दृष्टिर्बिम्बे पपात च तस्मिन् विलोकिता तेन दिव्यमाता यथार्थतः भक्तिप्रेमप्रवाहेण हृदियं तस्य पूरितम् अत्यानन्देन मत्तस साष्टाङ्गप्रणतोऽभवत् भक्तिमुक्तिविवेकार्थं प्रार्थनां कृतवान् स च अभङ्गदर्शनं देव्या लब्धुं तेनार्थितं तथा गुरुदेवसमीपं स यदा प्रत्यागतस्तदा दारिद्र्यशमनार्थं शमनार्थं किं मातरं तं याचता गुरुनैवं यदा पृष्टं नरेन्द्रश्चकितोऽभवत् प्रत्युक्तं च तदा तेन तत्सर्वं विस्मृतं मया एवं तर्हि पुनश्चापि गच्छतं प्रार्थयस्व च त्वत्केशं तत्क्लेशपरिहाराय मातरं चेत्यवग्गुरो पुनश्च मन्दिरं जातो नरेन्द्र किन्तु मातरं यदा पश्यत् स्वदौत्यं परिपूर्णतः एवं तृतीयवारं च यदा भूतेन बोधितम् मेतत्तु सञ्जातं गुरुदेवेच्छया ननु कदाचिद् गुरुणेष्टं यत् सन्न्यासी स्यान्नरेनि ते कुटुम्बार्थम् अत किञ्चित् कर्तुं गुरुम् अवगमनरेन् सरलाहारवसासनार्थं कुटुम्बं तो निश्चितं घटनैः सा नरेन्द्रस्य जीवने प्रमुखा भवत् उद्दिश्य दैवतं तस्य चिन्तनं परिवर्तितम् ईश्वरो व्यक्तिरूपेण नैव तेन विभावितः विश्वासं च निराकारब्रह्मण्ड्येव सदा करो कालीदर्शनहेतुस प्रबुद्धो भवदन् यथा मुख्यत्वं प्रत्यक्षं सोऽनुभूत्वान् काली मातैव ब्रह्मेति ते विज्ञातं तेन तत्त्वतः एतस्मान् गुरुर्देवोऽपि नितनाम् मुदितोऽभवत् श्रीरामकृष्णदेवेन सर्वमेतत्तुसाधितं शिष्यस्यान्तरं गतिर्ज्ञाता गुरुनाथेन केवलम्